मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायम् इलवन् पौषशुक्लचतुर्थी माहात्म्यवर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रोतं यन्मार्गशुक्लस्तचतुर्थी सं निदं मया व्रतं तेन सन्तृप्तो गुरुसत्तमा अधुना पौषमास्येया चतुर्थी वरदायिनी तस्या माहात्म्यमेवं मे ब्रूहित्वं मुनिसत्तम वसिष्ठ उवाच शृणुराज्यंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहं विस्तरेण दुःखो वक्तुं प्रभवेद्भुवि अवन्दी नगरी मध्ये वसत्तु ब्राह्मणोत्तमः सुदन्त इति विख्यातसर्वशास्त्रविशारदः राज्ञः पुरोहितश्रेष्ठः सदा नीतिपरायणः धर्मशास्त्रानुसारेण राजानमप्यबोधयत राजा भृपद्रथो नाम तदाज्ञावशगो भवद पालयामासभूमिं स नाना धर्मकरः परः सुदन्तस्या भवद्भार्या नाम्ना ख्यादा विलासिनी बभूव कर्मदोषेण वंध्या सा वैपतिव्रता अपत्यं सुषुवेश यज्जादमात्रं मृदं भवेद तदर्थं व्रतदानादिधर्मं चक्रे च चा सद्विजः नाभवत्तस्य तदपि पुत्रः परमसौख्यदः विप्रोदिदुःखितः सस्त्री को जगाम वनं तदः बभ्रामभ्रान्तचित्तोऽसौ यत्र तत्र महामतिः मरणे निश्चयं कृत्वा तपोयुक्तो बभूवः तत्रा जगाम योगीन्द्रो वामदेवः प्रतापवान् यदृच्छा विचरं सन्नमिदो दृष्टसन्नमिदोऽभवद पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः जगाद खेदसंयुक्त सुदन्तो योगिसप्तमं सुदन्त उवाच वामदेव धन्यं दुःखितस्य तपो वयः ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनाद वन्ध्योऽहं मुनिशार्दूलकागधिर्मे भविष्यति मृदस्य स्वर्गहीनस्य वद सत्तमा वामदेव उवाच शृणुद्विजमहाभागत्वं सदा धर्म संयुतः तथापि पापचारी त्वं येन जादशृणुष्व तद् अवन्दीपुरपालस्य आदरत्वं पुरोहितः राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतं चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले चतुर्वर्गफलैर्हिना जादा भूवासिनो जनाः धर्मस्याचरणं पूर्णं कृतं राज्ञा तथा त्वया निष्फलं व्रतलोपेन तेन त्वं धुना एवं श्रुत्वा वचोरम्यं वामदेवस्य धीमतः विस्मितस्तं सुदन्तोऽस्सौ जगाद विनयान्वितः सुदन्द उवाच कीदृशं तद्व्रतं तादवद वदमे हितकारकं चतुर्नां पुरुषार्थानां साधकं कथमाभवत् तेनहीनो हीनो नरो यस्तु स फलहीनकः कर्मणस्तत्समाचक्ष्व दया सागरमानद वसिष्ठ उवाच एवं वृष्टो महायोगी तज्जगादसविस्तरं माहात्म्यं सकलं तस्मै सश्रुत्वा विस्मितोऽभवद पुनः पप्रच्छतं विप्रो हर्ष न चेतसा गणेशज्ञानबोधार्थं गणपत्यं महामुनिं सुदन्त उवाच कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकं ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः एवं पृष्टो महायोगी वामदेवस्तमब्रवीद गणेश बोधदानेश कुशलः सर्वपारगः वामदेव उवाच सुदन्तशृणुविप्रर्षे गणेशं ज्ञानमुत्तमं गणपत्यो येन भक्तिभाविदो भवितासि भोः अहम् पुरा तपोनिष्टस्त्वभवम् यत्नसंयुधः तपःसा मे महाभागव्याप्तम् सर्वं चराचरं तदो मया मयात्तपस्त्यक्तम् योगार्चं ब्राह्मणोत्तम शमे दमे परेणान्तर्निष्ठेन मनसो जयद योगभूमिक्रमेणाहम् कालेन महदा द्विज सहजे संस्थितो भूत्वा यत्र तत्राचरं तु च सहजं मोहीनं यत्स्वाधीनत्वसमयुधं दृष्ट्वा शान्त्यर्थमत्यन्तं त्यक्तं च मया ततः सन्धृतं मनसिब्रह्ममनोवाणी विवर्जितं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते अधुना किं मया कार्यं विचार्य शरणं गतः शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणदो भवं शैवमार्गे रथं नित्यं दृष्ट्वा हर्षसमन्वितः शम्भुप्रोवाच मां विप्रस्थीयतां मुनिसत्तमाम् किमर्थमागतस्ताद वामदेव महामदे वदामि वा सकलं वृत्तं करिष्यामि प्रियं च ते शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः अवदं तं महादेवं भक्तवाञ्चासुरद्रुमं सफजं यत्परं ब्रह्मशैवं स्वेच्छामयं प्रभो तस्मात् परं न विद्येत तथापि नुदसंशयं ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुदो भवेत् स्वाधीनता दोषयुक्तं सहजं न परं मदम् अदशान्त्यर्थमेव त्वामहं प्रष्टुं योगशान्तिप्रदं पूर्णं वदमाम् मां करुणानिधे वसिष्ठ उवाच वामदेववचत्वा हर्षिदशङ्करो ब्रवीद तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् श्रीशिव उवाच योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने जानीहि न परं ब्रह्मसहजं योगसेवया स्वानन्दाद्य समुत्पन्नमसत्यं सत्यरूपकं समं च सहजं विद्धि चतुर्धासौ विभज्यते चतुर्नामत्र संयोगे स्वानन्दपरिकीर्तितः अयोगेनैव संयोगः केषाञ्चित् ज्ञानं विद्धि तन्निजबोधतः नकाराक्षरकं ज्ञानं निवृत्त्या लभ्यते तयस्वामी गणेशानो योग प्रकर्ति शादी सौ लि विप्र शादिभ्य शातिदायक चित्त पंच विधि विधि बुद्धि न संशय चित्ते मोहात्म सिद्धिर्मा ये ते पीर्ति तयोर्बिम्बं गणेशश्च बिम्बिभावं त्यज प्रभो अधुना गणनाथस्त्वं भविष्यसि न संशयः एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः एकाक्षरं गणेशस्य सविधिं करुणायुधः तं प्रणम्य महेशानं वने यादोह मादराद तत्रैव गणनाथं तमभजं भक्तिसंयुधः यकाक्षरविधानेन सन्तुष्टो गणनायकः योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणाद् तदोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मदः तथापि विघ्नदहनमभजं नित्यमादराद गतेषु दशवर्षेषु गणाधीशः समाययौ ममाश्रमं वरं दातुमुवाच खननिस्वनः गणेश उवाच वामदेवमहाभाग परं वृणु हृदीप्सिदम् तव दास्यामि भग्र्याहं सन्तुष्टो योगिसप्तमां गणेशस्य वचश्रुत्वा त्यक्त्वा ध्यानं समुद्धितः प्रणम्यतं गणेशं सम्पूज्य स्तोदुं प्रचक्रमे वामदेव उवाच गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने सिद्धि बुद्धि पदे तुभ्यं विघ्नेशाय नमो नमः मूषकारूटहेरम्बभक्त वाञ्छाप्रपूरकढुण्डिराजाय ते देव रक्षमां ते नमो नमः आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु दे आदिमध्यान्धरूपाय शङ्करप्रियसूनवे नाना मायाधरायैव मायुभ्यो मोहदायिने माया मायिकभेदायित्वं माय क्रीडसेदे नमो नमः विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते ब्रह्मपुत्राय सर्वे स सर्वपुत्राय नमः सर्वेषां चैव पित्रेते मात्रे सर्वात्मकायते ते महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः महोग्राय महेशाय विष्णवे प्रभविष्णवे अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे पुरुषाय प्रकृतये गुणेशाय गुणात्मने एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पदये नमः योगाय योगनाथाय योगिनां पदये नमः तौ मि किं त्वां गणेशान मनोवाणीविहीनकं मनोवाणीमयं नैवा तस्ते देव नमोस्तुते ते दे। सखैवं संस्तुवदस्तस्य भक्तिरसेन च रोमोद्गमः प्रादुरासीत् रोधो बभूवः उवाच वामदेवं स नृत्यन्तं विघ्ननायकः वरं वृणुष्वमहाभाग यत्ते चित्ते स्थितं परं त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परं शृणोति यः पठति योगप्रदं तथा भक्त्रिदम्भक्त्रि युक्तेभ्य पुत्रपौत्राधिकप्रदं धनधान्यप्रदं प्रोक्तं मयि प्रीदिविवर्धनं गणेशवचनं श्रुत्वा तं जगाद महामुनिः वामदेव प्रसन्नात्मा भ्रमेशं ब्रह्मभाविदः भक्तिं देहि गणाधीश गणपत्यां विशेषतः नान्यं व्याजे वरं देव यदि तुष्टोऽसि विघ्नप तथेदि तमुवाचैव गणेशोन्दर्दधे स्वयं वामदेव प्रसन्नात्मा गणपत्यो बभूवः तदादिशान्तिमापन्नस्त्वहं विप्रमहामदे अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः सविधिं वामदेवः सोन्तर्धानमकरोन्मुनिः सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमं राज्ञा सम्मानिधसोप्य गणनायकं बृहद्रथाय वृत्तान्तं कथयामास भो नृप तदाज्ञया नृपसद्यो सद्यो घोषयामास तद्व्रतं तत्रादौ पौषमासेया चतुर्थी तां चकारद्विज सद्यो जनैराज्ञा पुरस्थितैः व्रताचरणमात्रेण गर्भयुक्ता मुनिपत्नी मुनिपत्नीसुदं लेभे ज्ञानयुक्तं चिरायुषं ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमं शौक्लं पार्ष्णं विशेषेण चतुर्थी संज्ञृप सर्वे योगादिभिर्हीना जाताः पुत्रादिसंयुताः धनधान्यादिभिर्युक्ता अन्दे स्वानन्ददा बभुः सुदन्दो योगिवन्द्यश्च बभूवे योगसेवया राजाभिज्ञानसंयुक्तो गणपत्यो बभूवः पौष शुक्लचतुर्थीजमेदत्ते कथितं व्रतं राजन् सर्वार्थदम्पूर्णं पुनस्त्वं शृणुमानद वैश्यो मार्गे स्थितसोऽपि श्रमयुक्तो धनप्रियः तत्र चोरैस् समायातैर्लुण्ठितं तैर्धनं महत तेषां शस्त्राभिखादेन पपात धरणीतले वैश्यो वने दुःखितश्च विललाप दृशातुरः दैवयोगेन सा देवी चतुर्थी शुक्लगा गदा पौषी तस्यां जलाब्द्याैश्च हीनस्तत्र बभूवसः रात्रौ जागरणं तस्य संज्ञादं पीडया तदा पञ्चम्यां स मृतः पापी धनलुब्धो महामदे अज्ञातव्रतजेनैव महिम्ना सोपि भूपते स्वानन्दे गणपं दृष्ट्वा भ्रमभूतो बभूवः एवं जनाव्रतेनैव मुक्ताः संसारसागरात् इह मुक्त्वा किलान् भोगान् वर्णितुं तन्न शक्यते इदं पौषचतुर्ध्यास्तु माहात्म्यं यशृणोति चेत् पठेद्वै तस्य भो राजन सर्वदं प्रभविष्यति ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौष शुक्लचतुर्थीमाहात्म्यवर्णनं मामैकादशोऽध्यायः Om oh.